प्रजापतिः प्रजा, प्रजा सृष्ट्वा प्रेणानु प्राविशत् आभ्यः पुनः सम्भवितुम् नाशघ्नोत् सोऽभ्रवेत् रथमति सः यो मेतः पुनः सम्भरदिते दे, तन् देवाश्वमेधेनैवथमफरन् दे अतो वेतः यो वाश्वमेधेन युजते प्रजापतिमे पुरुषमालफले वैराजो मे पुरुषः विराजमेवालभदे अथो अन्नम् मे विराट अन्नमेवावरुन्धे अश्वमालभदे प्राजापत्यो वा अश्वः प्रजापदिमेवालभदे अथो श्रेरसभम् हिरमेवावरुन्धे ग्रामालभदे यज्ञो मे गौः यज्ञमेवालपदे अथो अन्नम् वै गौः अन्नमेवावरुन्धे अजाले आलपदे भूम्ने अथो पुष्टैर्वैभोवा पुष्टिमेवावरुन्धे पर्यज्ञकृतम् पुरुषम् चारण्याविश्वरम् चैकंसागै उभौ वा पशु आरभ्येते यश्चातमो यश्च परमः ते श्लोभये यज्ञे बद्धाः अभेष्टाभिप्रीताः अभिजिताभिभूताः भवन्ति नैनन्धणयो यज्ञे बद्धाः अभेष्टा अभिप्रीताः अभिजिता अभिभूता हिकंसन्ति यो स्वमेधेन विजते यबुजैनमेवम् वेद प्रथमेन वारेण स्तोमेन राध्वा रुष्टोमेण कृते नागानामुत्तरे हन्ने एकविपुंसेऽप्रतिष्ठा याम् प्रतिष्ठति एकविपुंसाप्रतिष्ठाया ऋतूरन्वारोहति रवो वै पृष्ठानि रवः संवत्सरः ऋष्पे संवत्सरे प्रतिष्ठाय एवताभ्यारोहरि शक्वरयः पृष्ठम् भवन्त्यञ्जनन्यच्छन्दः अन्येऽन्येव एते पशवा लभ्यन्ते उदेव ग्राम्याः उदेवरण्याः अह एव अथो अन्वदेवेन परिः क्रियते तदाह अपदो एते यदजा वयश्चारण्याश्च एवे सर्वे पशवः यद्गव्यायते गव्यान्पशोऽनुत्तमे अन्ना तेनैवोभयान् पशूनवरुन्धे राजापत्या भवन्ति अनभिजस्याभिजित्यै सौरेयन्नवश्ेतावशा नो बन्ध्या भवन्ति अन्तत एव ब्रह्मवक्षशमवरुन्धे सोवायश्वराज्ञेनो वाहावनग्निद्वन्दिनः पशूनानभते अहोरात्तानामभिजत्यै पशुधर्वारेणव्य योः स्वमेधेनैदे चकलम् कल्माणञ्जिमिलित्वा प्रान्पशोनालपदे पशुभिरेवात्मानकम् समर्थयति नतुभिर्वारेण व्यर्थ्यते योः स्वमेधेनैदेव विशङ्गाक्रजो वासन्दायितृतपशोनालपदे ऋतुभिरेवात्मानकम् समर्थयति आवारेण यो अश्वमेधेनेदते पर्यज्ञकतामुत्सञ्जना पुरस्कारा पर प्रजापतिनकामय महानम् नादस्यामिति स एतावश्वमेधेव हिमानामपश्यत् नाम गृह्णेता प्रतामयेतमहानन्नादो भवते यः कामनेत महानम् नादस्यामिति स एतावश्वमेधेव हिमानौ गृह्णेत महाने महान्नादो भवति यजमानदेवत्या वैभव राजा महिमा यद्भवामयम् न भैरवर्यजति यजमानमेव राज्येन भैरः परिगृह्णादि पुरस्ताः साहाकारा वा अन्ये देवाः उपरिष्टात्साहकारा अन्ये देवा एनेष्वेव मेध्य उभयेव लभ्यन्ते यदि भवाम् महिम्ना भैरवर्यजते ता नैवोभयान्द्रीणादि ऐश्वदेवो वा अश्वः नय्यत्रापत्यम् कुर्यात् या देवदेव विभागाः ता भागते येन व्यर्थयेत् देवताभ्यसमदन्दध्याद सेनान्तग्रष्टाभ्याम् मण्डोकाण्डम्भिरि आज्यमवदानम् कर्ता परिगन्ध्याय बाहुदेर्जहोदे ेवतापिभागाः भाग दे। दे। ता भागधेन समर्धयते न देवदाभ्यः समदम् दधातेणपाकाञ्जहानन्दरित्ये स्वाहेति पञ्चदशम् पञ्चदशर्धमादश्चरात्रयः अर्धमातुरः संवत्सराः संयत्ताः सन् हे पुरोन्नग्रहः अस्मत्समयेऽध्यर्थमयमुद्धारमुद्धरामहे अथैता न विभवामेदोहितमुदहन्त ततो देवाभवन् परापुराः यत्सप्तगर्भारोहितञ्जुहोदभ्राद्रव्या विभूत्यै भवत्यात्मनाः पराश्चभ्रादुर्व्या भवते गोमृगण्ठे आत्मनमाहुलिम् जुहोदे अथ भोमेको मृगः रुद्रोहाग्न्यस्मिट्प्रकृते रुद्रादेव पशोनन्दर्दधादे अतोऽयत्र एटावुतोजते अरत्र रुद्रः पशोनभिमन्यते अश्वतपेन द्वितीयाम् जहोदि पशवोः एकशपम् रुद्रोः अग्निस्मित्प्रकृते रुद्रादेव पशोनन्तर्दधादे अतो यत्र एतावतोजते अरत्र रुद्रः पशोनभिमन्यते यष्पेन कमण्डरुणा तदीया आहुतिञ्जुहो वे प्रजाः वर्ग्रा वृद्रादेव प्रजा अन्तर्दधादे अथो यत्र एषाहृति हूयते तत्र वृद्रः प्रजा अभिमन्यते अश्वस्य वानन्तस्य मेधमुद्रामदे हरस्वस्त्वमीयम् भवते आर्जेन जहोदे मेधो वा आर्ज्यम् मेधो वाश्वस्तोमीयम् मेधेनैवास्मिन्मेषम् दधादे क्षत्रिगुंशतम् जुहोदे क्षत्रिगं च दक्षराखते वारता पशवः सा पशूनाम् मात्रा पशूनेव मात्रया समर्थेदे तायद्धोजतेर्वाकनीयतेर्वाजुभुजात् क्षत्रयम् सगम् जुहोदे क्षत्रियम् सुदक्षरा पृहते पारिहता पशवः सा पशूनाम् मात्राः पशुरेव मात्रजानुवर्धयते अस्वस्थमीलकम् हत्वाद्युपदायदे परुषाद्युप्रतिष्ठः पदेन प्रतिष्ठयानुवर्धयते पदाहोः अश्वस्थोीनम् पूर्वकम् इति अश्वस्तोमीयम् पुरुषोद्विपदाः अश्वस्तोमी रघुम् हुत्वा द्विपदा निहोदे अस्माद्विपाच्च विश्वाजमत्ते असोहद्विपद्दे प्रतिष्ठापयदे विपदा हुत्वा नान्यामुत्तरामाहुलञ्जुभुजान्यामुत्तरामाहुलञ्जुभुयात् प्रतिष्ठायाश्चेद विपदान्तरश्वमेधमसोत्माच्छोपाक्रापदभिरन्वयेच्छल अय्यज्ञङ्कृतभिन्नान्वविन्दरन्वयेच्छले तविष्टिभिरन्दविन्देना व्यक्ति त्वाम् यत्संवत्सरविर्यजदे अश्वमे पलन्विच्छले सा वित्यजो भवन्ति यम् वेदपिता यो वा अस्याम् नश्य निजो मिलयते अस्याम् विन्दन्ते न वा इमाम् कश्चनेऽत्याह्ये भवेरे यत्सा वित्रयो भवन्ते समितप्रचोदय मेनमिच्छन्तो यत्सा यन्सते यत् अश्वस्य यत्ते धर्ते यत्त्रादलभर्यदले अश्वमेव ददन्विच्छायन्धरे अश्वस्यैव यत्ते धर्ते तस्मात् सायम् प्रजाः क्षेम्या भवन्ति यर्त्रादलभर्यदले अश्वमेव दरन्विच्छ तस्मात् दिवानष्टैले यत्रादलभर्यदले सायन्धरेभ्योदे अहोयात्राभ्यामेवेन मन्मिच्छति अतोऽहोयात्राभ्यामेव अपवादेतस्माक्षेयास्मिन् ग्रामते योश्वमे ब्राह्मणो वीणागाचिनौ गायतः श्रियावादेतद्रूपम् यद्वीणाः श्रियमेवास्मिन् तद्धत्तः यदा कर्मे पुरुषश्रियमश्मि वीणात्मैवाद्य तदा यदभो ब्राह्मणो गायनम् सुखात्मा क्षे स्यात् नवे ब्राह्मणेश्वरीरमधिते ब्राह्मणान्यो गायेन राजन्यो मन्यः ब्रह्मणे ब्राह्मणः क्षत्रगुं राजन्यः तथा ब्रह्मणा च क्षत्रेण च भैरश्वे परिगृहेनावने येदात्माद्राष्ट्रम् ग्रामे अवेराष्ट्रगौरमणये यदा कलवे राजा गामयदेवाह्मणो गायेत् रक्तगौराज्यः ब्रह्मणमवे रूप क्षत्रस्य रात्रिः तथाहास्य ब्रह्मणा चक्षत्रेण च भेदो राष्ट्रम् परिगृहे भवते इत्यनसावित्रेण साहित्यब्राह्मणो गायते इष्टापोक्तम् वै ब्राह्मणस्य इष्टापोक्तेनैवेन कुण्डसमर्थयते इत्यदि सावित्रे च साहित्यमकुन्तम् ग्राममहन्विति राज्यः युद्धम् वैराज्यस्य युद्धेनैवेन कुङ्कसमर्थयते एतस्यत्तमेधेन निस्राहम्यो निःस्राण्यः तत्सम्पद्यन्ते षड्वाऋतमः ततो नैवासैकल्पयतः ताभ्याम् सद्ग्रस्थायाम् अनोयुक्ते शते शताय पूर्णः शतेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठते सर्वेण लोकेण मृत्युभोन्वायत्ताः हेभ्यो य राहुदे मृत्युर्विन्देन मृत्यवे स्वाहा स्वाहेत्यपि पूर्वमाहुदे ज्योदे लोकाल्लोकादेव मृत्युपवेदेव नैनम् लोके लोके मृत्युर्विन्दते यदमुष्मये स्वाहामुष्मये स्वाहेतरुसञ्जक्षेत अहम् वृत्यममित्रम् कुर्वी मृत्यमे स्वाहेत्येकस्मादेवैकाम् जुहूयात् एको वाके मृत्युः वा त्वमेव भ्रूणहत्यादे स्वाहेत्वम् जुहोदि भ्रूणहत्यामेव वेदते तदा यद्भ्रूणहत्या वात्या कस्मा यज्ञे विक्रियते वा अमत्यर्वान्या भ्रूणहत्याया इत्याह भ्रूणहत्यावाहमर्चुते यद्भ्रूणहत्यारे स्वाहेत आहुतिम् जुहोदे मृत्युमेवाहुत्यादत्वणम् ध्रूणभ्य भेदम् करोति एतागम् हवेमुण्डिबाहुदम् न्यवह भ्रूणहत्यारेष्वायच्छत्यम् विदाञ्चकार यो हास्यामि प्रजायाम् भणगम् वन्ते हरवस्मेजस्मेजम् करोदे जुम्बगाय स्वाहेत्यमाहुदिम् जहोदे वरुणमवेजुम्बगः अन्तत नैव वरुणमवेदेक्षस्य मूर्धम् जुहोदे एलद्वय वरुणस्य रूपम् रूपेणैव वरुणमवेजने वारुणो वायने यत्रापत्यम् करोदे नमो राज्ञे न वा वरुणायत्याह वारणो वाश्वः सरेवेणम् देवतजासमध्ययते नमाश्वायरणः प्रजापतिनित्याः राजापुत्रो वा श्वः स्वरेवेण देवतजासमध्ययते नमोऽपतेह धर्मोपाधिपतिः न धर्ममेवावरुन्धे अधिपतिरस्त्यधिपतिर्मागमधिपतिरहम् पुराणाहम्भोजाधिवित्याः अधिपतिमेव कुम्समानाहङ्करोधेत्याह आमेवेदास्ते उपाकृताय स्वाहेत्युपाकृते जुहोदि आरब्धाय स्वाहेति नियुक्ते जहोदे उदाय स्वाहेजुहृते जहोदिकानामभिजत्ये प्रधानेभ्यो लोकेभ्यश्च पदे आज्ञेन तान् पशो नालभते प्रतिष्ठत्ये यदाग्ने भवते अग्निः सर्वा देवता देवता एवावरुन्धे ब्रह्म वा अग्ने क्षत्रमिन्द्रः यदेन्द्राज्ञा भवते ब्रह्मक्षत्रे एवावरुन्धे यदाश्विना भवते आशुरामवर्ध्ये यदा भवन्ते ैव लोके श्वे तिष्ठते अग्नयम् प्रागपालयदेवान्नाद्य अग्ने प्रथमसप्पदेवाक्या भवन्ति सर्वत्वायज्ञेन आत्मेन अण्ड्नागपालन्य सौम्यञ्चलम् सावित्रमष्टाकपालम् यदा भवते राज्ञः सर्वा देवताः देवताभिदेवेन यत्सौम्यो भवते सोमो वाोटे नागम्बाजाः याभिरेवेनम् विन्दते स्वाभिरेवेणम् भिणद्यते यत् सावित्रा भवते स्वमितप्रदोदेवेनम् भिणते एताभिरेवनम् देवताभिर्भिणजते अनदो हैभवदे पौष्णञ्जलम् निर्गभैर यदि श्लवणस्यात् पूषाभेश्लावण्यस्य भिणग स्वदेवेण अश्लोणैनुभवदे यदि महति देवताभिरन्द्ये च एतद्देवत्यो महा स्मः स्वरेवेण देवतयाभिनञ्जने अनदो हैमभवदे पये स्वारन्दा निनागच्छेत्वानुरः मत्सभ्याहम् परिलोधमानयते आहैमनुत्यमः गच्छदे यज्ञधेयात् अग्निदेवम् भोरेष्टागपालः शौर्यम् पयः वायव्यजभागः यजमानो वाश्वः अगम्हदावारेण गृहेदः यस्याश्वमेधा यप्राक्षुदोऽभ्येदे यदगम् वामजेन अगम्भदनेपदेन मुच्यते मिलमानो वा अश्वः वेदसामानेन व्यर्थरे यस्यामेधा यप्रोक्षुदोऽभ्येदे भवदे वेददेवेनकम् धनमधयदे मिलमानो वा कस्यास्वामेधाय प्राक्षितो वायव्यागर्भायाः निर्वायव्याद्यभागो भवति गर्भेणकंसमर्थे श्रेष्ठास्वमेधे प्रायच्छित् क्रियतेन युष्मावदेयान् भवते पदाह बालशब्दम् भवन् सङ्गस्थिते सर्वमेन द्वादश सर्वेभिजेन उपदामकरेण यज्ञस्याद् अवाय्याविष्व स्यात् आत्ताविवारेण स्वच्छन्दागम्भे के जानः तानि करेणावदानुपणप्रयुञ्जेते सर्वापेष्ठिते यज्ञेवागात्म्यते सात्ता भवदयानगाम् क्रोरेकदेव भवत्यनुष्ठुता सानुपणप्रयुज्येत्यावह द्वादैव ब्रह्मोदनान् सग्निष्ठते सर्ववेज प्रजापतिर्वामोदनः यज्ञप्रजापतिः उपनामकरेण यज्ञा भवते नवामेजान् भवते द्वादश भवन्ते द्वादशमासाः संवत्सरः संवत्सर एव प्रतिष्ठते एकवेभोर्नाम यज्ञः सर्वगम् भवेदत्र यत्रैतेन यज्ञेन यजन्ते एतवे प्रभोन्नाम यज्ञः सर्वगम् हवैरत्र प्रभव यत्रैतेन यज्ञेनैजन्ते एषवावोजस्वान्नाम यज्ञः सर्वगम् हवैरत्रोजस्मद्भवते यत्रैतेन यज्ञेनैजन्ते एतवै वयस्वान्नाम यज्ञः सर्वगम् हवैरत्र वयस्मद्भवते यत्रैतेन यज्ञेनैजन्ते एषवे विधतो नाम यज्ञः सर्वगम् हवेयत्र विसृतम् भवते यत्र एतेन यज्ञेन यजन्ते एषवै व्यावृत्तो नाम यज्ञः सर्वगम् हवेतत्र व्यावृत्तम् भवते यत्र एतेन यज्ञेन यजन्ते एषवै नाम यज्ञः सर्वगम् हवेदत्र प्रदक्षितम् भवते यत्र एतेन यज्ञेन यजन्ते एषवेतेजस्वे नाम यज्ञः सर्वगम् हवेदत्र तेजस्वि भवते यत्रैतेन नित्येन यजन्ते एदवे ब्रह्मवर्तसे नाम यज्ञः आहवैतत्र ब्राह्मणा ब्रह्मवर्तसे जायते यत्रैतेन नित्येन यजन्ते एदवादिव्याथे नाम यज्ञः आहवेदत्र राजज्ञोदव्याधे जायते यत्रैतेन नित्येन यजन्ते एतवैरे नाम यज्ञः वेर्भाैतत्र मनुष्या भवन्ति यत्रैतेन यज्ञेन यजन्ते एष वै कृप्लो नाम यज्ञः कल्पदेह वैरत्र प्रजाक्षेम यत्रैतेन यज्ञेन यजन्ते सार्थेणात्मकम् सम् यज्ञो वेदाव्यम् यज्ञेनैवेनकम् समर्थयन्ते यामेन सान्दाः प्रस्तोता नोपतिष्ठते यो तार्पेण कृतधे वाचेतास्तपुंसम् ज्ञापयन्ते एतद्वैपशोरागम् रूपम् रूपेणैव पशूनपरन्धे हिरण्यकशिप भवते तेजसोऽपध्ये रुग्मा भवते समर्गस्य लोकस्यालुख्याद्ये अश्वा भवति प्रजापतेनाद्यैः अस्य वै दिवो हिरण्यकशिवो आदित्यस्तक्मः प्रजापदेवश्वः इममेव लोकम् तार्पेणाप्नोति अन्तहिक्षङ्गृत्यसे वासेन विभगम् हिरण्यकशिपुनाः आदित्यकम् रुक्मेण अश्वेनैवमेऽर्थेन प्रजापदे स्वायुत्यगम् तु लोकतामाप्नोति एतामेव देवताम् दायुज्यम् सार्विदाकम् समालोकतामाप्नोति योश्वमेधे निददे यमुजैनमेवम् वेद आदित्याश्चान्यश्च वर्गे लोके स्पर्धन्तः अमुनादित्यमस्वर्गस्वेदम् भोजम् दक्षिणामनयन् ब्रुवन्लोष्ट स्ववर्यो भोजते तस्माश्वगं स्ववर्येत्यार्पयन्ते तस्मा यज्ञेवरोदीयते यत्प्रजापदा लब्धोऽश्व भवद् तस्मादश्वो नाम यक्ष्व यदर्वादे तस्मादर्वा नाम यत्सद्योगायान् समगे तस्माद्वारे नाम यदधुराणाम् लोकाना दत्ता तस्मादा नित्यो नाम पज्ञर्वास्तमेधस्य योगिरायदनम् योगिरायदनम् मेधेत्य उत्तरवेदुभगपति योजिमन्तमेवै न वायुधनमन्तम् करोति योजिमानायुधनमानम् भवति य एवम्बेन प्राणापानौ वा येदौ देवानाम् वितर्काश्वमेधौ प्राणापाणामेवावरुन्धे ओजौवनम् वा नेदौ देवानाः वितर्काश्वमेधौ ओजौवनमेवावृन्धे अज्ञर्वा स्वमेधस्य योगिरायतनम् सोऽग्नेर्योलिरायतनम् अयस्वमेधेत्य उत्तरवेदिम् जिनोति कावर्गाश्वमेधौ अर्का स्वमेधावेवावृन्धे अथो अर्कास्वमेधयोरेव प्रतिष्ठते प्रजापलिम्बरेव इतरम् वजम्भूतम् मेधाजालभन्तसन् एकम् वा एतद्देवानावः यत्संवत्सरः तस्मादश्व पुरस्परात्संवत्सरा यत्प्रजापजलाश्वा भवत् तस्मादश्वः यत्सद्योमेधाभवत् तस्मादश्वमेधः स्वमादम् भवते यदेवम् वेद यद्वयम् प्रजापजनालब्धा भव तस्माश्वप्रजापदे प्रचोदामनलोपदमः आस्कर्तप्रतिलोपो जायते यदेवम् वेद सर्वाणि भोगानि सम्पर्का लभते समेनम् देवास्तेजसे ब्रह्मवर्गतानि भरन्ति युवास्वेषम् वेद दे दे। एतद्वैतद्देवानेतान् देवताम्भोतम् मेधायालभन्त यज्ञमेव यज्ञेण यज्ञमैजन्तदेवाः कामप्रञ्यज्ञम कुर्वता प्रेमदत्वमकामयन्त प्रेमदत्त्वमगच्छन् समेधेन यजते देवानामेवजनेन इति तारावेणैव यज्ञेनैतै कामप्रेण अपुनर्माणमेव गच्छति एतस्तरे रूपेण पुरस्तात्तायाभन्तौ परम् बहु अपमानभते सर्वेभ्यः कामेभ्यः सर्वस्यात्यैः सर्वस्य नित्यै सर्वमेव देनाग्नोदे सर्वम् जयदे योश्वमेधेन इद युनेवम् वेल यो वास्य मेभ्यश्च लोमने वेल अश्वस्यैव लोमम् लोमञ्जुहोदे यत्सायम् प्रारब्जहोदे अश्वस्यैव मेद्यश्च नो मङ्गोमञ्जहोदे हेतदृणकृति अश्व वै पुरा अश्वस्य मेद्यश्च नो मङ्गोमञ्जपदे यो वा अश्वस्य मेद्यश्च पदे वेद अश्वस्यैव मेद्यश्च पदेव जहोदे हरि नवोर्णवासो वा अश्वस्य मेद्यश्च पदे यन्तरि शवोन्नमाधौ विजदे अर्श्वस्यैव मेभ्यश्च पदे पदे जुहोदे एतदनुकृते पुनः अर्श्वश्च मेध्यश्च पदे पदे जह्वदे यो वा अश्वपश्च मेभ्यश्च विवर्तनम्बेन अर्श्वस्यैव मेध्यश्च विवर्तने विवर्तने जुहोदे असौ वा नित्यश्वः स तद्विवर्तते यदग्निहोत्रम् जुहोरि अश्वस्यैव मेध्यस्य विवर्तन विवर्तने जहोरि एतदनुगतिः स्मै पुरा अश्वश्यमेध्यस्य विवर्तने विवर्तने जुह्वजी हरि ओ तृतीयाष्टकः समाप्तः